मार्कण्डेयपुराणम् अध्यायं तर्टिफैव् मदालसोवाच अतः परं वर्ज्या वर्ज्यावर्ज्यप्रतिक्रियां भोज्यमन्नं पर्युषितं स्नेहाक्तं चिरसम्भृतम् अस्नेहाश्चापि गोधूमयवघोरसविक्रियाः शशखो गोधाश्वाविद् खट्गोधपुत्रकभक्ष्या ह्येदे तथा वर्ग्यौ ग्रामशूकरकुक्कुटौ पितृदेवादिशेषश्चश्राद्धे ब्राह्मणकम्यया प्रोक्षितं चौ श्रद्धार्थं च खादन्मां न दुष्यति शङ्घाश्मस्वर्णरूप्याणां रज्जूनां मधवाससां शाकमूलफलानां च तथा विदलचर्मणां मणिवज्रप्रवालानां तथा मुक्ताफलस्य च गात्राणाञ्च मनुष्याणां मम्बुना शौचमिष्यते यथायसानां तोयेन ग्रावणसङ्घर्षणेन च शस्त्रेहानाञ्च भाण्डानां शुद्धिरुष्णेन वारिणा शूर्पधान्याजिनानां च मूषलोलूकलस्य च वस्त्राणां प्रोक्षणात् सञ्चयस्य च वल्कलनामशेषाणामम्बुमृच्छौ च मिष्यते तृणकाष्टौषधीनां च प्रोक्षणात् शुद्धिरिष्यते अविकानां समस्तानां केशानां चापि मेध्यता सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः साम्बुना तादभवति उपखादवतां सदा तथा कार्पासिकानां च विशुद्धिर्जलभस्मना दारुदन्तास्तिशृङ्गाणां तत्क्षणाच्छुद्धिरिष्यते पुनः पाकेन भाण्डानाम् पार्थिवानां च मेध्यथा शुचिर्भैक्षं कारुहस्तः पण्यं योषिन्मुखं तथा हृद्ध्यागदमविज्ञादं दासवर्गादिना वाक्रप्रशास्तं चिरातीदमनेकान्तरितं लघु अधिप्रभूदं बालं च वृद्धातुरविचेष्टितं कर्मान्ताङ्गारा शालाश्च स्तनन्तय सुदास्त्रियः शुचिन्यश्च तथैवपस्त्रन्त्यो गन्धबुद्बुदाः भूमिर लेपा कालाद्दाहमार्जनगोक्रमैः लेपाद्दुल्लेखनात् सेकाद्वेश्म सम्मार्जनार्चनाद् केशकीडावपन्ने च गोक्रादे मक्षिकान्विते मृदम्बुभस्मनातादप्रोक्षितव्यं विशुद्धये औदुम्बराणामम्लेन क्षारेणत्रपुषिसयोः भस्माम्बुभिश्च कांस्यानां शुद्धिः प्लावाद्रवस्य च अमेध्याप्तस्य मृतो यैर्गन्धापहरणेन च अन्येषां चैव तद्द्रव्यैर्वर्णगन्धापहारतः शुचि गोतृप्तिकृतोऽयं प्रकृतिस्थं महीगदं तथा मांसञ्च च चण्डालक्राव्यादादिनिपादितं र्यागदं च चेलादि तादवादात् शुचिस्मृतम् रजोऽग्निरश्वो गौश्चाया रश्मयः पवनो मही विप्रुषो मक्षिकाद्याश्च दुष्टसङ्गाददोषिणः अजाश्वौ मुखदो मेध्यौ नगोर्वत्सस्य चाननं मा दुःप्रस्रवणं मेध्यं शकुनि फलपातने आसनं शयनं यानं नावः पथितृणानि च सोमशूर्यांशुपवनैः शुध्यन्ते तानि पण्यवद रद्ध्यावसर्पणस्त्राणक्षुत्पानम्लानकर्मसु आचामेत यथा वासो विपरिधाय पृष्ठानामप्यसंसर्गैर्विरध्या कर्दमाम्भसां पक्वेष्टरचितानां च मेध्यता वायुसङ्गमाद प्रभूतोपहदादन्नादग्रमुद्धृत्य सन्ध्यजेद् शेषस्य प्रोक्षणं कुर्यादाजम्यादिभस्तः तथा मृदा उपवासस्त्रिरात्रन्तु दुष्टभक्ताशिनो भवेद् अज्ञादेज्ञानपुर्वन्तु तद् दोषोपशमे न तु उदक्याश्वसृगालादीन्सुदिकान्त्यावसायिनः स्पृष्ट्वा स्नायेद शौचार्थं तथैव मृतहारिणः हा। नारं स्पृष्ट्वास्ति सस्त्रेहं स्त्रादशुद्ध्यधिमानवः आचम्यैव निस्त्रेहं निःस्रेहं गामालभ्यार्कमीक्ष्य वा न लङ्घयेत्तथवासृष्टीवनोध्वर्तनानि च नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत्कदाचन न चालपेर्जनद्विष्ठां वीरहीनां तथा स्त्रियं गृहादुच्छिष्टविन्मोत्र पादाम्भांसि क्षिपेद्वहिः पञ्च न स्त्रायात्परवारिणि स्त्रायीदेवकादेषु गङ्गाह्रदृसरित्सु च देवता पितृसच्छास्त्रयज्ञमन्त्रादिनिन्दकैः कृत्वा दुस्पर्शनालापं शुद्ध्ये तार्कावलोकनाद् अवलोक्य तथोदक्या मन्द्यजं पदिदं शवं विधर्मिसूतिका षण्डविवस्त्रान्त्यावसायिनः सुतनिर्यादकांश्चैव परदाररताश्च ये ये ददेव हि कर्तव्यं प्राज्ञैः अभोज्यं सुतिकाशण्ड मार्जारात्कुष्व कुकुडान् पतिता विद्धचण्डाल मृदहारांश्च धर्मविद संस्पृश्य शुभ्यते स्त्राणादुदक्याग्रामशूकरौ तद्वच्च सुति काशौ च दूषितौ पुरुषावपि यस्य चानुदिनं हानिर्गृहे नित्यस्य कर्मणः हा। यश्च ब्राह्मण सन्ध्यर्थ किल्विषी स नराधमः नित्यस्य कर्मणो हानिं न कुर्वोदकदाचन तस्य त्वकरणे दशाहं ब्राह्मणस्तिष्ठे दानकोमादिवर्जितः क्षत्रियो द्वादशाखं च वैश्यो मासार्धमेव च शूद्रस्तु मासमासीदनिजकर्म विवर्जितः ततः परं निजं कर्म कुर्युः सर्वे यथोदितम् प्रोदाय सलिलं देयं बहिर्दग्ध्वादु गोत्रिकैः प्रथमेष्णिचतुर्थे च सप्तमे नवमे तथा भस्मास्थिचयनं कार्यं चतुर्थे गोत्रिकैर्दिने ऊर्ध्वं सञ्चयनात् तेषामङ्गस्पर्शो विधीयते क्रिया सचयनात् परं स्पर्श एव स पिण्डानां मृदाहनि तथोभयोः अन्वेकमृक्षमाशस्त्रतोयोद्बन्धनवह्निषु विषप्रपादादिमृते प्रायो नाशकयोरपि बाल्ये देशान्तरस्तेज तथा प्रव्रजिते मृदे सद्यशौचमधान्यैश्च त्र्यहमुक्त्रमशौचकं सपिण्डानां सपिण्डस्तु मृदेन्यस्मिन्मृदो यदि पूर्वाशौचसमाख्यादायि कार्यास्त्वत्र दिनैः क्रियाः येशयेव एव विधिर्दृष्टो जन्मन्यपि हि सूतके सपिण्डानां सपिण्डेषु यथावत् सोदकेषु च जादे पुत्रे पितुस्त्राणं तत्रापि यदि चान्यस्मिन् जाते जायेद चापरः तत्रापि शुद्धिरुद्दिष्टा पूर्वजन्मवधो दिनैः दशद्वादशमासार्धमासङ्ख्यैर्दिनैर्गदैः स्वा स्वकर्म कुर्युः सर्वे वर्णा यथा प्रेदमुद्दिश्य कर्तव्यमेघोद्दिष्टं ततः परम् दानानि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः यद्यदिष्टतमं लोके यच्चापि ययितं गृहे तत्तद्गुणवदे देयं तदेवा क्षयमिच्छदा पूर्णैस्तु दिवसैस्पृष्ट्वा सलिलं वाहनायुधम् प्रतोददण्डौ च तथा सम्यग् वर्णा स्ववर्णधर्मनिर्दिष्टमुपादानं तथा क्रियाः कुल्युः समस्ताशुचिनः परत्रेख भूदिताः अध्येतव्या त्रयीनित्यं भवितव्यं विपश्चिदा धर्मदो धनमाहार्यं यष्टव्यं यत्नतः यच्चापि कुर्वदो नात्मा जुगुप्सा मेधिपुत्रक तत्कर्तव्यमशङ्गेन यन्न गोप्यं महाजने चरदो वत्स पुरुषस्य गृहे सतः कामसंप्राप्त्या परत्रेह च शोभनम् इति श्रीमार्कण्डेयपुराणे लर्कानुशासने वर्ज्यवर्ज्य नाम पञ्चत्रिंशोऽध्यायः ओ